श्रीहरये नमः अथ चतुर्दशोऽध्यायः श्रीशुक उवाच अथ दश्रुचदां राजन् वंशसोमस्य पावनः यस्मिन् जलातयो भूप कीर्त्यन्ते पुण्यकीर्तयः सहस्रशिरसः पुंसो नाभिः धातो अत्रिपितृसमो गुणैः तस्य दृग्भ्योऽभवत्पुत्र सोमोऽमृतमयः किलः विप्रौषद्युडुगाणानाम् ब्रह्मणा कल्पितः पतिः सोऽयजत्राजसूयेन विजित्य भुवनत्रयं पत्नीं बृहस्पते दर्भात् तारां नामाहरत् याचितो भीष्णसोमधात् नात्यजत्तत्कृते जज्ञे सुरधानवविग्रहः शुक्रो बृहस्पते अग्रीहीत्सा सुरोडुभं हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः सर्वदेवगणो भेदो गुरुमन्वयात् सुरासु विनाशोऽभूत् समरस्तारकामयः निवेदितो धाङ्गीरसा सोमं निर्पत्स्य विश्वकृत् निवेदितो धाङ्गीरसं सोमं निर्पत्स्य विश्वकृत् तारां स्वभद्रे प्रायश्च अन्तर्वत्नीमवैत्पतिः त्यज त्यजासु दाहितं परैहे नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्ता निहसति तद्याजव्रीडिता तरा कुमारं कनकप्रभं स्पृहामाङ्गीरसश्चक्रे कुमारे सोमये ममयाम् यां न ततवेद्युश्चैस्तस्मिन् विवतमानयोः पप्रुश्चुरुषयो देव कुमारो मातरं प्राह कुपितो लीलज्जया किं न ब्रह्मताम्रक ताम्रक आहूय सम्प्राक्षिष्य सान्त्वयन् सोमस्येत्यागसनकै सोमस्तं तावदग्रहीत तस्यात्मयो नि अकृत बुध इत्यभितां नृप बुद्ध्या गम्भीरया येन इलायां य उदाहृतः तस्य रूपगुणौ धार्य शीलद्रविणविक्रमान् श्रुत्वसीन्द्रभवने गीयमानान् सुरर्षिणा तदन्तिकम्बुपेयाय देवी स्मरशरार्दिता मित्रावरुणयोशापात् आपन्नानरलोकतां निशम्य पुरुषश्रेष्ठं कन्धर्पमिव रूपिणं धृतिं विष्टव्यललन उपतस्ते तदन्तिके सतां विलोक्य नृपतेर्हर्षेणोत्फुल्ललोचनः उवासश्लक्षणया वाचा देवीं हृष्टतनारुहः राजो वाचा आस्यतां करवामकिं किं सम्भ्रमस्य मया साकं रतिर्नौ शाश्वतीसमाहा उर्वश्युवाचां कस्यास्त्वयि न सज्जेत मनोदृष्टिश्च सुन्दरान् तव्यदङ्गान्तरमासाद्य शवते हरिहंसयान् एतावरणौ खौराजन् यासौ रक्षस्व मानधा संरंस्ये भवता साकं विवाससंतत्तदेते प्रतिभेते महामनाः अहोरूपमहो भावो नरलोकविमोहनं को न सेवेतमनुजो देवीं त्वां स्वयमागतां तया स पुरुषश्रेष्ठो रमयन्त्यायतार्हतः रेमेसुरविहारेषु कामं चैत्ररधातिषु रममाणस्तया देव्यां पद्मकिञ्झल्कघन्तयां तन्मुकामो तमुषितो मुमुदेहर्गणान् बहून् गन्धर्वान् समचोदयद् उर्वशीरहितं मह्यम् आस्थानं नातिशोभते ते उपेत्यमहारात्रे तमसि प्रत्युपस्थिते उर्वश्यावुरणौ जह्रुर्न्यस्तौ राजनिजायया निसंज्ञाग्रन्थितं देवी पुत्रयोर्नीयमानयोः कथास्म्यकं कुना तेन न पुंसा वीरमानिनां यत् विश्रम्भातहं नष्टां कृतापत्या च धस्युभिः यस्येते निशि यथा नारी दिवा पुमान् प्रतोत्रैरिव कुञ्जरः निशिनिस्त्रिं समाधाय विवस्त्रोऽभ्यद्रवतृषां ते विसृजोरणौ तत्र व्यत्योतन्तस्म विद्युतः आदायमेषा भायान्तं नग्नम् ऐषतसापतिम् ऐलोपि सयने अपश्यन् विमना इव तच्चित्तो विक्वलक्षोचन् पभ्रामवुन्मत्तवन्मह्यें सतां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीहे पञ्चप्रहृष्टभदनां प्राकसूक्तं पुरुरवाहा अहोजाये तिष्ट तिष्ठ घोरेण त्यक्तुमर्हसे मां त्वमद्यापि अनिर्वृत्य वचांसि कृणवावहये सुदोहोऽयं पधत्यत्र देविदूरं हृतस्त्वया खादन्त्येनमृकाग्रद्रास्त त्वत्प्रसादस्य नास्पदम् उर्वस्युवाच मामृता पुरुषोऽसि त्वं मा स्मत्वाद्युर्वृकायि शक्यं न वै स्त्रीणां वृकाणां हृदयं यथा स्त्रियो ह्यकरुणा क्रूरा दुर्मर्षाप्रियसाहसाः नन्त्यल्पार्थेऽपि विस्रब्धं पथिं प्राधरमप्युथ विधायालीकविश्रम्भम् अग्नेषु त्यक्तसौहृदाः नवं नवम् अभीप्सन्त्य पुंश्चल्यस्वरैवृत्तयः संवत्सरान्ते हि भवान् एकरात्रं महेश्वरा वत्स्यपत्यानि भविष्यन्ति ययपराणि भोः अन्तर्वत्नीमुपालक्ष्य देवीं सप्रययौ पुरं पुनस्तत्र गतो भ्रान्ते उर्वशीं वीरमातरम् उपलभ्यमुधायुक्तं समुवासतयानि सा अतैनमुर्वशी प्राह कृपणं विरहादुरम् गन्धर्वान् उभता वे मां स्तुभ्यं दास्यन्ति मामिति तस्य संस्तुवतस्तुष्टा अग्निस्तालिं धुर्नृपा उर्वशीं मन्यमानस्तां सोभुध्यत चरन् वने मनसि त्रय्यवर्तता तालिस्तानं गतो समीगर्भं विलक्ष्य सहा तेन द्वे अरणि कृत्वा उर्वशी लोककाम्यया यत्तत्प्रजननं प्रभुः तस्य निर्मन्तनातो जातवेता विभावसुः त्रैयासविद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिव्रत तेन अयजतयज्ञेसं भगवन्तं मदोक्षजन् उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च पुरुरवसयेवासीत् त्रयी त्रेतामुखे अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् इति श्रीमद्भगवते महापुराणे नवमस्कन्ते अयि लोपाख्याने चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमघराज की जय